श्रीसूर्यध्यानं रक्ताम्बुजासनमशेषगुणैकसिन्धुं भानुं समस्तजगतामधिपं भजामि पद्मद्वयाभयवरान् ददतं कराव्यै मारिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् श्रीसूर्यप्रणामः जवाकुसुमशङ्काशं काश्यपेयं महाद्युतिं भ्रान्तारिं सर्वपापघ्नम् प्रणतो श्रीदिवाकरम् श्रीसूर्याष्टकं साम्भवाच आदिदेव नमस्तोभ्यं प्रसीद मम भास्कर दिवाकरनमस्तभ्यं प्रभाकरनमोऽसुते सप्तास्वरमथारूढं प्रचण्डं कस्य पात्मजं श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहं लोहितं रतमारूढं सर्वलोकपितामहम् महापापहरं देवं तं सूर्यं प्रणमाम्यहं त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरं महापापहरं देवं तं सूर्यं प्रणमाम्यहं विहितं तेजपुञ्जं च वायुमाकाशमेव च प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहं बन्धुकपुष्पसङ्कासं हारकुण्डलभूषितम् एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहं तं सूर्यं जगत्कर्तारं महातेजप्रदीपनम् महापापहरं देवं तं सूर्यं प्रणमाम्यहं तं सूर्यं जगतां नाथ ज्ञानविज्ञानमोक्षदं महापापहरं देवं तं सूर्यं प्रणमाम्यहम्